अथ षोडशः सर्गः सुनिविष्टम् विभीषणं वाक्यमुक्तवन्तम् विभीषणम् अब्रवीत्परुषम् वाक्यम् रावणः कालचोदितः वसेत्सहसपत्नेन क्रुद्धेनाशीविषेण च न तु मित्रप्रवादेन संवसेच्छत्रुसेविना जानामि शीलम् ज्ञातीनाम् दृश्यन्ति व्यसने श्वेते ज्ञातीनाम् ज्ञातयः सदा प्रधानम् साधकम् वैद्यम् धर्मशीलम् च राक्षसा ज्ञातयोऽप्यवमन्यन्ते शूरम् परिभवन्ति च नित्यमन्योन्यसंहृष्टा व्यसनेष्वाततायिनः प्रच्छन्नहृदयाघोरा ज्ञातयस्तु भयावहा श्रूयन्ते हस्त्यभिर्गीता श्लोकाः पद्मवने पुरा पाशहस्तान्नरान् दृष्ट्वा शृणुष्वगदतो मम नाग्निर्नान्यानि शस्त्राणि ननः पाशाभयावहा घोरास्वार्थप्रयुक्तास्तु ज्ञातयो नो भयावहाः कृत्स्नाद्भयाम् ज्ञाति भयम् कुकष्टम् विहितम् जनः विद्यते गोषु सम्पन्नम् विद्यते ज्ञातितो भयम् विद्यते स्त्रीषु चापल्यम् विद्यते ब्राह्मणे तपः ततो नेष्टमिदम् सौम्य यदहम् लोकसत्कृतः ऐश्वर्यमभिजातश्च रिपूणाम् मूर्ध्नि च स्थितः यथा पुष्करपत्रेषु पतितास्तोऽयबिन्दवः न श्लेषमभि गच्छन्ति तथा नार्येषु सौहृदम् यथा शरदि मेघानाम् सिञ्चतामपि गर्जताम् न भवत्यम्बुसङ्क्लेदस्तथा नार्येषु सौहृदम् यथा मधुकरस्तर्शाद्रसम् विन्दन्न तिष्ठति तथा त्वमपि तत्रैव तथा, त्वम तथा नार्येषु सौहृदम् यथा मधुकरस्तर्शात् काशपुष्पम् पिबन्नपि रसमत्र न विन्देत तथा नार्येषु सौहृदम् यथा पूर्वम् गजः स्नात्वा गृह्यहस्तेन वैरजः दूषयत्यात्मनो देहम् तथा नार्येषु सौहृदम् योऽन्यस्त्वेवम्विधम् ब्रूयाद्वाक्यमेतन्निषाचरा तस्मिन्मुहूर्ते न भवेत् त्वाम् तु धिक्कुलपांसना इत्युक्तः परुषम् वाक्यम् न्यायवादी विभीषणः उत्पपातगदापाणिश्चतुर्भिः सह राक्षसैः अब्रवीच्च तदा वाक्यम् जातक्रोधो विभीषणः अन्तरिक्षगतः श्रीमान् भ्राता वै राक्षसाधिपम् सत्त्वम् भ्रान्तोऽसि मे राजम् ब्रूहि ज्येष्ठो मान्यः पितृसमो न च धर्मपथेऽस्पितः इदम् हि परुषम् वाक्यम् न क्षमान्यग्रजस्यते सुनीतम् हितकामेन वाक्यमुक्तम् दशानना न गृह्णन्त्यकृतात्मानः कालस्य वशमागताः सुलभाः पुरुषा सततम् प्रियवादिनः अप्रियस्य च पर्थ्यस्य भक्ता श्रोता च दुर्लभः बद्धं कालस्य बद्ध काल पाशेन सर्वूतापहारिण नुपेक्षे तादीत शरण यहाक सशित कांचन भूषण नवाचा्य हम निहतं शर शूरा बलवंत नारणे कालाभिपन्नाः सीदन्ति यथा बालुकसेतवः तन्मर्शयतु यच्चोक्तम् गुरुत्वाद्धितमिच्छता आत्मानम् सर्वथा रक्षपुरीम् चेवाम् स राक्षसा स्वस्ति गमिष्यामि सुखी भव विना निवार्यमाणस्य मया हितैषिणा न निशाचर परे हि गतायुषो न राहित न गृहति वाल्मीकिये मद्मा वाक्ये युद्धकांडेषोड़श